अथैकविंशत्यधिकशततमः सर्गः ताम् रात्रिमुषितम् रामम् सुखोदितमरिन्दमम् अब्रवीत् प्राञ्जलिर्वाक्यम् जयम् पृष्ट्वा विभीषणः स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च चन्दनानि च माल्यानि दिव्यानि विविधानि उपस्थितास्त्वाम् विधिवत् स्नापयिष्यन्ति राघवा एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् हरीम् सुग्रीवमुख्याम् त्वम् स्नानेनोपनिमन्त्रया स तु ताम् यति धर्मात्मा मम हेतोः सुखोचितः सुकुमारो महाबाहुर्भरतः सत्यसंश्रयः तम् विना कैकयी पुत्रम् भरतम् धर्मचारिणम् नले स्नानम् बहुमतम् वस्त्राण्याभरणानि च एतत्पश्य यथा क्षिप्रम् प्रति गच्छाम ताम् पुरी अयोध्याम् गच्छतो ह्येष पन्थाः प्रत्युवाच विभीषणः अह्ना त्वाम् प्रापयिष्यामि पार्थिवात्मजा पुष्पकम् नाम भद्रन्ते विमानम् सूर्यसन्निभम् मम कुबेरस्य रावणेन बलीयसा हृदम् निर्जित्य सङ्ग्रामे कामगम् त्वदर्थं पालितं पालितम् चेदम् तिष्ठत्यतुलविक्रम तदिदम् विमानमिह तिष्ठति येन अहम् ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् वसतावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् लक्ष्मणेन सह भ्रात्रा वैदेह्या भार्यया सह अर्चितः सर्वकामैस्त्वम् ततो रामगमिष्यसि प्रीतियुक्तस्य विहिताम् ससैन्यः सुहृद्गणः सत्क्रियाम् राममेतावद्ग्रहाणत्वम् मयोध्यता प्रणयाद् बहुमानाच्च सौहार्देन च राघवा प्रसादया विप्रेष्योऽहम् न खल्वा ज्ञापयामि रामः प्रत्युवाच विभीषणं रक्षसाम् वानराणाम् च सर्वेषामेव शृण्वता पूजितोऽस्मि त्वया वीरसाचिव्येन परेण च सर्वात्मना च चेष्टाभिः सौहार्देन परेण च न खल्वेतम् न कुर्याम् ते वचनम् राक्षसेश्वर तन्तुमे भ्रातरम् द्रष्टुम् भरतम् त्वरते मनः माम् निवर्तयितुम् योऽसौ चित्रकूटमुपागतः शिरसाया यस्य वचनम् न मया कौसल्याम् च सुमित्राम् च कैकेयीम् च यशस्विनीम् चैव पौराञ्जानपदैः सह अनुजानीहि माम् सौम्य पूजितोऽस्मि विभीषण मन्यर्न खलु कर्तव्यः सखे त्वाम् चानुमानये उपस्थापय मे शीघ्रम् विमानम् राक्षसेश्वर कृतकार्यस्य मेवासः कथम् स्यादिह सम्मतः एवमुक्तस्तु रामेण राक्षसेन्द्रो विभीषणः विमानम् सूर्यसङ्काशमाजुहावत्वरान्वितः तत कांचन चिरांग वैदू मेदिकूटागारे परीक्षि सर्वोरजत पांडुराभि पताजित कांचन्य हेम पद्मूषित प्रकर्ण किलैर्मुक्ता मणिगवाक्षक घंटाजाल परीक्षि सर्वो मधुरस्वनम तम् मेरुशिखराकारम् निर्मितम् विश्वकर्मणा बृहद्भिर्भूषितम् हर्म्यैर्मुक्ता रजतशोभितैः तलैः स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः महार्हास्तरणोपेतैरुपपन्नम् महाधनैः उपस्थितमनाधृश्यम् तद्विमानम् मनोजवम् निवेदयित्वा रामाय तस्थौ तत्र विभीषणः तत्पुष्पकम् कामगमम् विमानमुपस्थितम् भूधर सन्निकाशम् दृष्ट्वा तदा विस्मयमा जगाम रामः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे एकविंशत्यधिकशततमः